वाक्यरत्नावले अष्टमं प्रकरणम् अथ सार्धान्तिकजीवन्मुक्तिवाक्यानि एकोनविंशत्यधिकम् शतम् स तत्र पर्येति जक्षत्क्रीडन् रममाणस्त्रिभिर्वा यानैर्वा ज्ञातिभिर्वा वयस्यैर्वा नोपजनं स्मरन्निदं शरीरम् स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीडः आत्ममिथुन भवति ते देवाः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेशणायाश्च सुसाधनेभ्यो व्युत्थाय निरागारा निष्परिग्रहा अशिखा अयज्ञोपवेता अन्धा बधिरा मुग्धाः क्लीबा मूका उन्मत्ता इव परिवर्तमानाः शान्ता उपरतास्तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणममेव परम् ब्रह्मात्मप्रकाशम् शून्यम् जानन्तस्तत्रैव परिसमाप्ताः कुचेलोसाय एकाके समाधिस्त आत्मकाम आतकामो निष्का जीर्णकामो हस्ति सिंह दंशे मशके नकुले सपराक्षसगंधवेशु मृत्यो रूप विद्वा निभेदे कुतर्वधर्मा परित्यज्य, निर्ममो निरहंकारो भूत्वा, ब्रह्मिष्ठम् शरणमुपगम्यत्तत्त्वमसि सर्वम् खल्विदम् ब्रह्म नेह नानास्ति किञ्च नेत्यादि महावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मेति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति ससन्न्यासी स मुक्तः स पूज्यः स योगे स परमहंसः जीवः स्वकल्पित चतुर्वंशते तत्वं सौधूत स ब्राह्मण जीव पंचवशते तत्व परतजशक निश्चया जीवन्मुक्त तोरीय जागृते सुषुप्त्यवस्थापन्न इव यद्यच्छ्रुतम् यद्यद्दृष्टम् तत्सर्वम् अविज्ञातम् इव यो वशेत् तस्य स्वप्नावस्थायामपि तादृगवस्था भवति स जीवन्मुक्तो भवति सकृद्विभातसदानन्दानुभवैकगोचरो ब्रह्म विद्वांशुरादे बाह्य प्रपंचोपरत जगद आत्म पश्यत्मे भावय कृतकृत्यो भवते निर्द्वन्व सदा चल गात्र परम शांतिशुदेखंड पूर्णः कृतार्थः परिपूर्णपरमाकाशमग्नमनाः प्राप्तोऽन्मन्यवस्थः सन्न्यस्तसर्वेन्द्रियवर्गोऽनेकजन्मार्जितपुण्यपुञ्जपरिपक्वकैफल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मेति कृतकृत्यो भवति ब्रह्म एवाहमस्मेत्यनवरतम् ब्रह्म प्रणवानुसन्धानेन यः कृतकृत्यो भवति स परमहंसपरिव्राट् भावाभावकलाविनिर्मुक्तः सर्वसंशयध्वस्तः पूर्णाहम्भावः कृतकृत्यो भवति प्राणो येषु सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी आत्मक्रीड आत्मरतिः क्रियावानेषु ब्रह्मविदाम् वरिष्ठः निमिषार्धम् न तिष्ठन्ति वृत्तिम् ब्रह्ममयीं विना यथा तिष्ठन्ति ब्रह्माद्याः शनकाद्याः शुकादयः अध्यात्मरतिराशेनो निरपेक्षो निराशिषः सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्यैवावतिष्ठते कपालं वृक्षमूलानि कुचेलान्यसहायता शमता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् स्वप्नेऽपि योऽभियुक्तः स्याज्जागृतीव विशेषतः ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् निर्माणश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः आत्मक्रीड आत्मरतिरात्मवान्समदर्शनः स्मृत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् न हृष्यति ग्लायते यः स शान्त इति कथ्यते अप्राप्तं हे परित्यज्य सम्प्राप्ते समताम् गतः अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते नाकृतेन कृतेनार्थो ना कृते न ना श्रुतिस्मृतिविभ्रमैः निर्मन्थन इवाम्बोधे स तिष्ठते यथास्तितः सम्यग्ज्ञानावबोधेन नित्यमेकसमाधिना साङ्ख्य एवावबुद्धा ये ते साङ्ख्या प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः अनामयम् अनाद्यन्तं ते स्मृता योगयोगिनः सुखदुःखदश दशाशिद्धीरं साम्यान्न प्रोद्धरन्ति यम् निःश्वासा चित्तं तस्य मृतं विदुः वाचा मतेतविषयो विषयाशादयदशोज्झितः परानन्दरसाक्षुब्धो रमते स्वात्मनात्मने निर्ग्रन्थिः जीवन्मुक्तो विभावनः अनिर्वाणोऽपि निर्वाणश्चित्प्रदीप इव स्थितः निर्धनोऽपि सहायो महाबलः भुञ्जानोप्य समः समदर्शनः कुर्वन्नपि न कुर्वाणश्च भोक्ता फलभोग्यपि शरीरप्यशरीरोऽसौ परिच्छिन्नोऽपि सर्वगः अध्यात्मरसे न पूर्ण पावनमानस नक्य तथस्तौस्ते न कर्म न सधानाप्या निर्वासनमन जगज्जीवाश्यम न तत्पश्यति चिद्रूपम् ब्रह्म वस्त्वेव पश्यति अहमन्नं सनाद्नाद इति हि ब्रह्मवेदनम् ब्रह्मविद्ग्रसति ज्ञानात् सर्वम् ब्रह्मात्मनैव तु समाधिम् अथ कर्माणि मा करोतु करोतु हृदयेन्नात्त सर्वेहो मुक्त एवोत्तमाशयः अक्षरत्वाद्वरेण्यत्वाद्व्यस्तसंसारबन्धनात् तत्त्वमस्यादिलक्ष्यत्वादवधूत इतिर्यते यो विलङ्घ्याश्रमान् वर्णानामत्मन्येव स्थितः पुमान् अतिवर्णश्रमे योगे अवधूत सकथ्यविसा प्रभुंक् हुताश ना सर्वक्षा तथा योगे विषयान्भुंक् न लिप्यतेण्यपापैष शुद्ध केवदं सुषमः मौने मुदितमानसः सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः आत्मा रामा महात्मानस्ते महापदमागताः हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः न रुष्यति ग्लायते यः स जीवन्मुक्त उच्यते अहङ्कारमयीं त्यक्त्वा वासुनां लीलयैव यः तिष्ठते ध्येयसन्त्यागे स जीवन्मुक्त उच्यते मौनवान्निरहं भावो निर्माणो मुक्तमत्सरः यः करोति गतोद्वेगः स उच्यते यावति दृश्यकलना सकलेयं विलोक्यते सा येन सुष्ठु सन्त्यक्ता स जीवन्मुक्त उच्यते उद्वेगानन्दरहितः समया स्वच्छया धिया न शोचते नोदेति उच्चते सर्वेच्छा सकला शंका सर्वे निसर्व्चया पर सीवन्मुच्य जन्मस्थितनाशेषु सोदयास्मेश सममेव मनो यस्य स जीवन्मुक्त उच्यते सर्वाधिष्ठानचिन्मात्रे निर्विकल्पे चिदात्मनि यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते क्रियानाशाद्भवे चिन्तानाशोऽस्माद्वासनाक्षयः वासनाप्रक्षयो मोक्षः स जीवन्मुक्त उच्यते निर्विकल्पा च च चिन्मात्रा वृत्तिप्रज्ञेति कथ्यते सा सर्वदा भवेद् यस्य स जीवन्मुक्त उच्यते देहेन्द्रियेष्वहम्भाव इदम् भावस्तदन्यके यस्य नो भवतः क्वापि स जीवन्मुक्त उच्यते न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः प्रज्ञया यो विजानाति स जीवन्मुक्त उच्यते साधुभिः पूज्यमानोऽपि पीड्यमानोऽपि पी पी दुर्जनैः सममेव भवेद्यस्य स जीवन्मुक्त उच्यते यथास्थितमिदं यस्य व्यवहारवतोऽपि च अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा यथा प्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते यो जागृतिषुषुप्तिस्तो यस्य जागृन्न विद्यते यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते रागद्वेषाभयादेनामनुरूपं चरन्नपि योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते कुर्वतो कुर्वतो वापि स जीवन्मुक्त उच्यते यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षाषंक्त स जीवन्मुक्त यस्माथजाशु व्यवहार्यपिशत परार्थेषवूर्ण स जीवन्मुक्त उच्च प्रजहािगता मुने मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते चैत्यवर्जितचन्मात्रे पदे परमपावने अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते इदं जगद्दयं सोऽहं दृश्यजातम् अवास्तवम् यस्य चित्ते न स्फुरते स जीवन्मुक्त उच्यते शान्तिसंसारकलनः कलावानपि निष्कलः यस्य चित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते चिदात्माहम्परात्माहं निर्गुणोऽहं परात्परः आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते यस्य देहादिकम् नास्ति यस्य ब्रह्मेति निश्चयः परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते नित्यानन्दप्रसन्नात्मा यन्यचिन्ताविवर्जितः किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते अहम् ब्रह्मास्म्यहम् ब्रह्मास्म्यहम् ब्रह्मेति निश्चयः चिदहम् चिदहम् चेति स जीवन्मुक्त उच्यते इति जीवन्मुक्तिवाक्यानि एकोनविंशत्यधिकम् शतम् अष्टमम् प्रकरणम् समाप्तम्